अस्य अस्य समिधाः समिधोः भवन्ति समिध इति सम् इधाः भवन्त्योऽध्वा ओध्वा शुक्रा शुक्रा शोचीगृषि शोचीगृश्यग्नेः अग्नेरित्यग्नेः सुप्रती युमत्तमा सुप्रतीकस्य विमत्तमेति द्युमत् तमा सुप्रतीकस्य सूनोः सुप्रतीकस्येति सुप्रतीकस्य सूनोरिति सूनोः तनूनपादसूरः तनूनपादिकू न पानात् असूरो विश्ववेदाः विश्ववेदा देवः विश्ववेधा इति विश्ववेदाः देवो देवेषु देवेषु देवः देवैति देवः क्वथो अनत्तु अनत्तु मध्वा मध्वा घृतेन घृतेनेति घृतेन मध्वा यज्ञम् नक्षसे नक्षसे प्रीणानः प्रीणानो न रासांसाः अग्ने अग्नैत्यग्ने सुकृद्देवः सुकृदिति सुकृते देवः सविता सविता विश्ववाहारः विश्ववाहार विश्व क्षायम् अयमेति हेति सवासा शवासा घृतेन घृतेने राणः हि राणा वह्निः पह्नेर्नमासा नमासा अग्निः शुचाः शुचो अध्वरेषु अद्धरेषु प्रयत्सु प्रयत्स्विति प्रयतेत्सु स यक्षते यक्षरस्य अस्य महिमानम् महिमानामग्नेः अग्नेः सह ऐम् ईम् मन्द्रा मन्द्रासु प्रयसाः स्वप्रयस इति प्रयसाः वसुश्चेतिष्ठः चेतिष्ठो वसुधातामहः वसुधातामश्च वसुधातामयि वसुधातामह चेती देवी देवी अनन्तरस्य अस्य विश्वे विश्वनु रता रता ददन्ते ददन्ते अग्नेः अग्नेरित्यग्नेः सो उरुव्यज सोधाम्ना उव्यचित्योरुप्य च सः गाम्ना पच्यमानाः पच्यमाना इति पच्यमानाः ते अस्य ते इति ते अस्य योषणे योषाणि दिव्ये योषणि इति योषाणि दिव्येन दिव्ये इति दिव्ये, दिव्ये न योनौ यो उषासानक्ताः उषसानक्ते युषसानक्ताः इमै यज्ञम् ग्यं, यज्ञमवताम् अवतामद्भरम् मद्भरम् नाह न ना इति नः दै यूया होतारा होतारा भूवध्वम् ओध्वमध्वरम् अध्वर्णाः नो अग्नेः अग्नेर्जिह्वाम् जिह्वामपि अभिरेणीतम् गृणीतमिति गृणीतम् कृणुतन्नाः न सृष्टिम् सृष्टिमिति सो इष्टिम् तिस्रो देवीः देवी यद्बर्हि बर्हिरेदम् सदन्तिला इदा सरस्वती भारती पारती भारती मही गृणाना तन्नाः न स्तुरीपम् तुरीपमद्भूतम् अद्भूतम् पुरुक्षु पुरुक्षु त्वष्टा त्वष्टाः सुवीरम् सुवीरमिति रायःपोषम् कोशम् वि पिश्यतु स्यतु नाभिम् नाभिमस्मे अस्मे इत्यस्मे वनस्पतेव अवश्रिया श्रिजारणः राणस्मना न देवेषु देवे श्री देवेषु अव्यर्हव्यम् हव्याम् शमिता शमिता सूदयाति सूरयातीति सूदयाति अग्ने स्वाहा स्वाहा तृणिः तृणिः जातवेदः जातवेद इन्द्राय जातवेद इति जात वेदः इन्द्राय हव्यम् हव्यमिति हव्यम् विश्वे देवाः देवा हविः हविरिदम् निरञ्जुषन्ताम् जुषन्तामिति जुषन्ताम् पीवो पीब अन्नायीवृा पीब अन्ना, अन्ना पीवा अन्नाध सुधा रईवृती रई वृथा सुधा शेत सु मेधाः श्वेतस्यी शक्ति सिशक्ति नियुताम् सिशक्तीतिशक्ति नियुतामभि श्रीः नियुतामिति नियुताम् अभिश्रीरित्याभि श्रीः ते वायवेः वायवे समानसः समानसोऽपि स मानस इति स मानसः वितस्थुः तस्थुर्विश्वाः विश्वेत् इन्नराः नरः स्वपत्यानि चक्रुः स्वपत्यानीतिषु अपत्यानि चक्रुरिति चक्रुः रायेणो नृयम् यम् जज्ञतोः जज्ञतो रोदसी मे प्रोदसी इति रोदसी इमे राये में राजे देवी देवी धषण षण धाति देवं देव देवं अथ वायु वायु नियुता नियुतः सश्चता नियुत इति नियुताः सश्चत स्वाः स्वा उत उत श्वेतम् श्वेतम् वसुधिकिम् वसुधितिम् निरेके वसुधिति वसुधिचिम् निरेक इति पायुरग्रेगाः अग्रे गायज्ञप्रीः यज्ञप्रीरिति यज्ञप्रिः सा गङ्गन् गन्मनसा मनयसा यज्ञम् यज्ञमिति यज्ञम् शिवो नियुद्भिः नियुद्भिः शिवाभिः नियुद्भिरिति नियुद्भिः शिवाभिरिति शिवाभिः त्रयाभिः याभिर्यासी यासी दास्वाग्निसम् दास्वाग् समच्छा अच्छा निः नियुद्धर्निर्वायो नियुद्धिरिति नियुद्धीः पाय इष्टये पायो इति वायो इष्टये दुरोणे दुरोण इति दुरोणे निनाहा नो रयिम् रयिम् सुभोजसं सुभोजसंयुवस्वा सुभोजसमिति सु भोजसम् युवस्वनी निवीरं वीरम् गव्यम् गव्यमस्यम् अस्य च च राधाः राध इति राधाः वायो ये वायो इति वायो एते ते सहस्रिणः सहस्रिणो रथारासः रथारासस्तेभिः तेभिरागहि आगहि गही गहि मिलित्वान् सोमापीतये सोम पीतय इति सोम पीतये एका याचा च दशभिरिति दश गीः च स्वभूते स्वभूते द्वाभ्याम् स्वभूत इति स्व भूते द्वाभ्यामिष्टये इष्टये विंसती विंसती चेती च च वहसे वहसे त्रींसता त्रीं सता, सता च नियुद्भिः नियुद्भिर् वायो नियुद्भिरि नियुद्भिः वाय इहा वायो इति वायो काविमुञ्च मुञ्चेति मुञ्च नियुत्पान् वायो मायादहि वायो इति वायो आगहि गस्ययम् अयाम् शुक्रः शुक्रो अयामि अयाम् ते अ इति ते ग्रन्था आसीत् सुन। असि सुन्वतः सुन्वतो गृहम् गृहमिति गृहम् वायो शुक्रः वायो इति वायो शुक्रो अयामि अयामि ते ते मद्धाः मद्धो अग्रम् अग्रम् अग्रम याहि या हि सोमापीतये सोमापीतये स्पार्हः सोमापीतय इति सोम पीतये स्पार्हो देव देवनियुत्ता नियुत्ततेति नियुत्ता आनाः नो नियुद्भिः नियुद्भिः सतिनीभिः नियुद्भिरिति नियुत्भिः अध्वरांसहस्रिणीभिः सहस्रिणीभिव वा याहि याहि यज्ञम् यज्ञमिति यज्ञम् वायो अस्मिन् वायो इति वायोः अस्मिन् सवाने सवाने मादयस्व मादयस्व यूयम् यूयम् पात पातस्वस्तिभिः स्वस्तिभिः सदा स्वस्तिभिरितिः स्वस्ति भीः सदानानः नयितेनः तवा वायो वायऋतस्पते वायो इति वायो ऋतस्पते त्वष्टुः कृतपद इत्य ऋतपदे त्वष्टुर्जामातः जामातरद्भुता अद्भुतेत्यद्भुता अवाग्स्या व्रीणीमहे आवृणीमहे वृणीमह इति वृणीमहे येन द्यौः द्यौ रुद्रा उग्रा पृथिवी पृथिवी च च स्वाहा स्वस्तभितम् स्वरिति स्वाहायेन येन नाकाः यो अन्तरिक्षे अन्तरिक्षे रजासः रजासो विमानाः विमानः कस्मै विमानाः तस्मै देवाय देवाय हविषाः अविषा विधेमा विधेमेति विधेमा यम् क्रन्दसि क्रन्दसि अवसा क्रन्दसि इति क्रन्दसि अवसा तस्तभाने तस्तभाने अभि तस्तभाने इति तस्थाने अभ्यैक्षे एताम् अयीक्षे एताम् मनसा मनसा रेजमाने रेजमाने इति रेजमाने यत्राधि असि सूराः शूर उदीतः उदीतो विभाति उदीत इत्युत् ईतः विभातीति वि भाति आबोह हयरे यद्वेहतीः ृहतीर्विश्वम् विश्वमायन् आयन् गर्भम् गर्भम् ददानाः ददाना जनयन्ती जनयन्तीरग्निम् अग्निमित्यग्निम् ततो देवानाम् देवानाग्नेसम् सममावर्तता अवर्ततासुः असुरेकाः एक इत्येकाः यश्चेत् आपो महिना महिना पर्यपश्यत् पर्यपस्य द्रक्षम् पर्यपस्यदिति परि अपश्यत् द्रक्षम् दधानाः दधाना जनयन्तीः जनयम् यज्ञम् यज्ञमिति यज्ञम् यो देवेषु देवेष्वधि अधिदेवः देव एकाः एक आसीत् आसीदित्यासीत् नो जजान्यजानेति जानजान्यजानेति जान विश्वा जातानि जातानीति जातानि अभित्वाशूरा सूरनो नुमः नो नुमो दुग्धा इव अदुग्धा इव धेनवाः अदुग्धा इवेत्यदुग्धाः इव धेनवयी स्या अस्य जगातः जगातः स्वदृशम् स्वदृशमीशानम् स्वदृशमिति स्वृशम् ईशानमिन्द्र इन्द्रतस्तुषाः तस्तुषमिति तस्तुषाः न त्वावान् त्वावानो अन्यः त्वावामिति क्त्वाम् अन्यो दिव्यः दिव्यो न पार्थीवः पाचीभो पार्थी न न जातः जातो न जनिष्यते जा जनिष्यत इति जनिष्यते अस्वायन्तोमघवन् अश्वयन्त इत्यश्वयन्ताः मघवन्निन्द्रा मघवन्निते मघमन् इन्द्रवाजिनाः वाजिनो गव्यन्ताः गम्यन्तस्त्वा त्वा हवामहे हवामह इति हवामहे त्वामिते युद्धि हि हवामहे हवामहे सातौ सातौ वाचस्य वाचस्य कालवाः कालव इति कालवाः ृत्रुत्रींद्र इंद्र सत्ति सत्ति सत्ति सत्पा तरस्ता का सर्वा अर्वा स चित्रवज्रहस्ता वज्रहस्तधृष्णुया वज्रहस्तेति वज्रहस्ता धृष्णुया महः धृष्णुयेति धृष्णुया महस्तवानः सवानो अध्रिवः अद्रिव इत्यद्रि वः स्वाहम् रक्ष्यम् रक्षामिन्द्र इन्द्रसम् सङ्गीर किरसत्रा सत्रा, सत्रा वाजम् वाजन् न जिग्ुषे जिग्भुष इति जिग्भुषे कयानः नश्चित्रः चित्रा भूवति आभूवते वो ूती ओती सदा वृधः सदा वृधः सखा सदा वृध इति सदा वृधः सखेति सखा त्वया सचिष्ठया सचिष्टया वृता वृतेति वृता त्वस्त्वा सत्यः सत्यो मदा मदद मामिष्टो मिष्टो मत्सरे मत्सर दर सह मंध शैत्यं आरुजेवसु वस्वितिवसु अभीषुणाः सुनाः नः सखीनाम् सखीनामविता अविता जरिद्रीणाम् चरित्रीणामिति जरित्रीणाम् सतम्भवासी भवास्योदये ऊतय इत्यूतये यज्ञायज्ञावहा यज्ञायज्ञेति यज्ञा यज्ञा गो अग्नये अग्नये गिरागिरा च गिरागिरा च गिरागिरेति गिरा गीरा च दक्षसे दक्षस इति दक्षसे प्रप्रभयम् प्रेतिप्र वयममृतम् अमृतम् जातवेदसम् जातवेदसम् प्रियम् जातवेदसमिति जातवेदसम् प्रियम् मित्रम् मित्रम् न सां शिषम् सां शिषमिति सां शिषम् वोर्जो न पातम् न पाताम् सः स हिला अस्मयुद्दासेनेव अस्मयुरित्यस्म युः दासे एव हव्यदाहतय इति हव्यदातये भुवद्वाजेषु वाजेष्वविता हविता भुवद् भुवद्वृधः दृढ उता उतत्राता त्राता तनूनाम् तनूनामिति धनूनाम् संवत्सरोऽसि असि परिवत्सरः परिवत्सर इवत्सरः परिवत्सर इति परिवत्सरः इदावत्सर वत्सरो वत्सर यदत्सर वत्सर वत्सर उषसा उषसस्ते ते कलता कलोरात्र अहोरात्र अर्धमा अर्धमा ऋतवा ऋतव संवत्सर संवत्सरस्ते ते कल्पताम् कल्पताम् प्रेचै प्रे येत्यै प्रेत्य इति प्र इत्यैत्यै सम् एत्या इत्या इत्यै सञ्च चाञ्च न प्रा प्रच्च सारय सारय सुपन्नचित् सुपन्नचिदासि सुपन्नचिदिति सुपन्नचित् असि तया देवतया देवतायाङ्गिरस्वत् अङ्गिरस्वद्ध्रुवः ध्रुव सीदा ओम सीदा ॐ समितेन्द्रम् समिधेति सम् इधा इन्द्रमिलः इलः स्पदे पदे नाभाः नाभा पृथिव्याः पृथिव्या अधि अधीत्यधि चर्षणी वेतु चर्षणि सहामिति चर्षणि सहात्ति वेत तनू न पातमूति तनू न पातमीज तनु तम् कूतिभिर्जेतारम् कूतिभिर्ज्योतिभिः जेतारमपराजितम् जेता अपराजितमित्यपराजितम् इन्द्रम् देवम् देवग्वः स्वर्विदम् पति स्वर्विदम् पतिभिः स्वर्विदमिति स्वदम् प्रतिभिर्मधुमत्तमैः प्रतिभिर्ति प्रतिभिः मधुमत्तमैर्नराशांसेन मधुमत्तमैरिति मधुमत् तमैः तमै रसांसेन तेजसा तेजसेति तेजसा इलाभिरिन्द्रम् इन्द्रमीलितम् कीलितमाजुह्वानम् आजुह्वानमत्यम् आजुह्वानमित्या जिह्वानम् अमर्त्यमित्यमत्यम् देवो देवैः देवो स वैयर्यः सवेर्यो वज्राहस्तः सवेर्यैः स वीयर्यः वज्राहस्तः पुरन्धरः वज्राहस्त इति वज्रहस्तः पुरन्धर इति रः बर्हिषीन्द्रम् इन्द्रम् निषध्वरम् निषध्वरम् वृषभम् निषध्वरमिति निषत् वरम् वृषभम् नर्यापसम् नर्यापसमिति नर्या अपसम् वसोभिः रुद्रैः वसुभिरिति वसुभिः रुद्रेरादित्यैः आदि सयुद्भ सयुग सयुग्भि सयुग्भ बर्रासद आसदे असदितासोजो न वीर्ज वीर्यांसहा इन्द्रम् इन्द्रमवर्धयन् अवर्धयन्नित्यवर्धयन् स्वप्रायणा अस्मिन् स्वप्रायणा इति स्वप्रायणाः यज्ञेऽ मिश्रयन्ता स्नयन्तामृतावृहाः वृतावृथोद्वाराः ऋतवृथ इत्यरेकवृधाः द्वार इन्द्राय इन्द्राय मीहृषे मेहृषे व्यन्तु यन्ति चिव्यन्तु उषे इन्द्रस्य उषे इत्युषे इन्द्रस्य धेनु धेनुः इति धेनु सुदुघे ए मातरा इति सुदु सुदुघे मातरा मही मही इति मही तरौ न स वातर इति स वातरो न तेजसा तेजसा वत्सम् वत्समिन्द्रम् इन्द्रमवर्धताम् अवर्धतामिन्द्रियताम् वीतामिति वीताम् विषजा सखाराय सखाराय हविषा हविषेन्द्रम् इन्द्रम् विषज्यतः विषज्यत इति विषज्यतः कवि कवी इति कवी देवौ प्रचेयेतसौ प्रचेतसा इन्द्राणाय प्रचेतसा इति प्रचेतसौ दत्तः इन्द्रियम् इन्द्रियमिति इन्द्रियम् पिरा सरस्वती सरस्वती भाराजी भाराजी महीः महीरिति महीः इन्द्रापत्न्यैर्हविष्मादीः इन्द्रापत्नीरिति इन्द्रापत्नीः हविष्मादीरिति हविष्मादीः त्वष्टारमिन्द्रम् इन्द्रम् देवम् देवम् विषजम् विषजाम् सुयजम् सुयजम् घृतश्रियम् सुयजमितीषु इदम् घृतश्रियमिति घृताश्रियम् पुरुपां सुरेतासंरुपमिति घुरुरूपम् सुरेतासं मघोनम् सुरेतासमितिषु प्रेतासं मघोनमिति मघोनम् धियो ज्योष्टारम् जोष्टारमिन्द्रियम् इन्द्रियमिति इन्द्रियम् मद्धा समञ्जन् समञ्जन् पथिभिः समञ्जन्निति सम् अञ्जन् पथिभिः सुगेभिः पथिभिरिति पथिभिः सुगेभिः स्वदादि सुगेभिरिति सुगेभिः स्वदादियज्ञम् स्वाहा स्वाज्यस्य आर्यस्य मेधा सः मेरा सौकाना स्वाहातीना हव्यसोना स्वाहाती स्वाती हव्यसोना हव्य सोक्तीजप आज पुषाण आजपाइ षाणा इन्द्राः इन्द्राज्यस्य आज्यस्येत्याज्यस्य देवम् बर्हिः बर्हिरिन्द्रम् इन्द्राम् सुदेवम् सुदेवम् देवैः सुदेवमिति सुदेवम् देवैरवीरवत् वीरवस्तीर्णम् वीरवदिति वीरवत् स्तीर्णम् वेद्याम् वेद्यामवर्जयत् अवर्धयदीवर्धय वस्त्रृत वृतम प्राप्त अत्रोतम भृता बर्षम बर्षस्मतीगा इंद्रा सघाते साते बीएडी संघात संघाते बीएडीयावन यधय अवर्धयन्नित्यावर्धयन् आवत्सेन वत्सेन तरुणेन तरुणेन कुमारेण कुमारेण च चा, चमीपता मणीपताप अबार्वाणम् अर्वाणाम् धेनुकटम् वेणुककाटम् मुदन्ताम् वेणुककाटमिति रेणुककाटम् मुदन्तामिति मुदन्ताम् उषासानक्तेन्द्रम् उषसानक्ते उषसानक्ताः इन्द्रै यज्ञे यज्ञे प्रायति प्रयत्यश्वेताम् नभ्यतीति प्रायति अश्वेता विद्येताम् दैही अर्विशाः विशप्रा प्राया आसक्ता अयाशिष्टाग्रे सुप्रीते सुप्रीते सुधीते सुप्रीते इति सु प्रीहीते सुधीते इति सुधीते वसूधिति देवम् वसूधिति इति वसुधि एवमिन्द्रम् इन्द्रमवर्धताम् अवर्धतामित्यावर्धता अया यन्या अन्याभा देशा अग्नेसि देशाग्नस्यान्या आन्या अन्या वक्षद् वक्षद्वसु वसु वार्याणि वार्याणि विजामानाय वार्या विजामानाय शिक्षिते शिक्षितैति शिक्षिते सुदुघे पयसा सुदुघे इति सुदुघे पयसेति पयसा युषमोर्जम् ओर्ज मन्या हन्या वक्षत् वक्षत्सिम् सर्द्धीम् सपीतिम् सपीतिमन्या सपीतिमिति स पीतिम् अन्या नवेन नवेन पूर्वम् पूर्वम् दयामाने जमाने पुराणेन दयामाने इति दयामाने पुराणेन नवम् नवता रातामूर्जम् ज मोर्जाहूती ऊर्जाहूती ऊर्जयमाने ऊर्जाहूती इत्योर्ज आहूति ऊर्जयमाने इत्य इत्योर्जयमाने इत्य हता घशांस आभाष्टा हता घशांस इति हत आघशांसौ आभाष्टा अभाष्टाज्ञशिक्षितौ शिक्षिता इति शिक्षितौ पतिवि इन्द्रामवर्धयन् अवर्धयन् अवर्धयन, नित्यावर्धयन् अस्पृक्षद्बारती बारती दिवम् दिवां रुद्रैः रुद्रैरयज्ञम् निज्ञाम् सरस्वती सरस्वतीलाः इला वसुमती वसुमती गृहान् वसुमतीति वसुमती गृहादिति गृहान् त्रिवरोधस्त्रीबन्धुरः त्रिवरूथ इति त्रिपरूथः त्रिबन्धुर इति त्रिबन्धुरः सतेन श्रुतिपृष्ठानाम् श्रितिपृष्ठानामाहीतः श्रितिपृष्ठानामिति श्रुति पृष्ठानाम् आहीतः सहस्रेण आहीतयित्या भीतः सहस्रेण प्रा प्रवर्तते वत्तते मित्रावरुणा मित्रावरुणेति इलस्य अस्य होत्रम् होत्रमर्हतः अर्हातो बृहस्पतिः बृहस्पतिस्तोत्रम् स्तोत्रमश्विना अश्विनाद्धर्यवम् आद्धर्यवमित्याद्धर्यवम् मधुसाकस्तु पिप्पलः मधुशाक इति मधुशाकः सुपिप्पल इति सु पिप्पलः दिवमग्रेण अग्रे स्पृक्षत् अस्पृक्षतान्तरिक्षम् आन्तरिक्षम् अन्तरिक्षम् पृथिवीम् पृथिवीनाजृंहीत् अजृंहीदित्याजृंहीत् स्वासस्थमिन्द्रेण स्वासस्थमिति सु आसस्थम् इन्द्रेणासन्नम् आसन्नमन्या आसन्नमित्या सन्नम् अन्या बर्हि घ्षि बर्हि कस्यभि अभ्यभूत् अभूदित्यभूत् सृष्टम् कुर्वन् सृष्टमितिषु इष्टम् कुर्वन् स्पृष्टकृत् सृष्टकृत्सृष्टम् सृष्टकृदिति सृष्टकृते सृष्टमद्य सृष्टमितिषु इष्टम् अद्य करोतु करोतु नः न इति नः इन्द्रायपशागम् छागमिति छागम् इन्द्रायच्छागेन छागेनेतिच्छागेन अघत्तम् तम् मे दत्तः मे द प्रती प्रतीपचत पचतागृभीत् अगृभीदवीवृधत अवीवृढत पुरोलासेन पुरोलासेनेति पुरोलासेन समिधानम् महदे समिधानमिति सम् विधानम् महद्यशाः यश्च सामिद्धम् सुसामिद्धम् परे अन्यम् सुसामिद्धमिति सु सामिद्धम् वयोधसमिति वयः दसम् गायत्रीम् छन्दाः छन्द चंद इन्द्रियम् इन्द्रियन्त्र्यविम् प्रलिङ्गा प्रविमिति त्रि अविम् गाम् वयाः वयो दधत् दधदिति दधत् तनूनपातमुद्भिरम् तनूरपातमिति तनु न पाकम् उद्भिदयम् उद्भिदमित्युत्विदम् यम् गर्भम् गर्भमदीतिः अदीत्यदधे दधे शुचिम् शुचिमिति शुचिम् उष्णिहम् नित्यवाहम् नित्यवाहमिति नित्य वाहुम् ईरेण्यमीरितम् वृत्रहम् ताममिति वृत्रहन् तामम् इलाभिलेद्याम् ये ज्यां सहाः सह सोमम् सोममिति सोमम् अनृष्टुभम् पञ्चाविम् अनस्तुभमित्यनुस्तुभम् पञ्चाविमिति पञ्च अविम् सुपर्हिषम् सुबर्हिषमिति सुबर्हिषम् पोषण्वन्तमर्त्यम् पोषण्वन्तमिति भूषण् मङ्गम् अमर्त्याम् सीदन्तम् सीदन्तम् बर्हिषि बर्हिषि प्रिये प्रिये मृता अमृतेत्यमृता बृहतीन् त्रिवत्सम् त्रिवत्समिति त्रि वत्सम् यशस्वती सुप्रायणाः सुप्रायणा रेकावृथाः सुप्रायणा इति सुप्रायणाः यतावृधो द्वाराः यतावृध इत्यरेका वृथाः द्वारो देवीः तेर्हिरण्यैः हिरण्यैयद्ब्रह्माणम् ब्रह्माणमिति ब्रह्माणम् द्रम्हानम। पङ्क्तिमिह इह तुर्यवाहम् तुर्यवाहमिति तुर्यवाहम् <laughs> सुपेशरसा सुशिल्पे सुपेशसेति सुपेशसा सुशिल्पे ऋहति सुशिल्पे इति सुशिल्पे बृहति उभे बृहति इति बृहति उभे नक्तोषासाः उभे इत्युभे नक्तोषासाना नक्तोषसेति नक्तोषसाः न दर्शते दर्शते विश्वम् दर्शते इति दर्शते विश्वमिति विश्वम् त्रिष्टुभम् पष्ठवाहम् त्रिस्तुभमिति त्रिस्तुभम् पष्ठवाहमिति पष्ठवाहम् प्रचेतसा देवानाम् प्रचेतसेतिप्र चेतसा देवानामुत्तमम् उत्तमै यसाः उत्तममित्योत् उत्तमम् यशो होतारा होतारा दयिव्या दयिव्या कवी कवी सयुजा कवि इति सयुजेति स युजा जगति मरग्वाहम् अनड्वाहमित्यनड्वाहम् पेशस्वतीयस्तिस्रः तिस्रो देवीः पेवीर्हिरण्यैः हिरण्यैर्भारतीः मारतीयर्बृहतीः बृहदी अर्महीः महीपतिम् पतिमिधिपतिम् विराजम् धेनुम् विराजमिति वि प्रायम् धेनुम् नेतिना सुरेतासन्तुष्टारम् सुरेतासमिति सुप्रेतासम् त्वष्टारम् पुष्टिवर्धानम् पुष्टिवद्धानाम् रूपाणि पुष्टिवर्धानमिति पुष्टिवर्धानम् रूपाणि बिभ्रातम् बिभ्रातम् पृथक् पृथक् पुष्टिम् पुष्टिमिति पुष्टिम् द्विपदमुक्षाणम् द्विपदमिति द्विपदम् उक्षाणमित्युक्षाणम् हिरण्यवर्णवस्थिणम् हिरण्यवर्णमिति हिरण्यपर्णम् उक्षिणाम् रसनाम् प्रसाम् बिभ्रातम् बिभ्रातम् वशिम् वसिम्बम् बलमिति बलम् ककुभम् वशा वशाम् वेहतम् वेघतमिति वेघतम् स्वाहाकृतिरग्निम् स्वाहाकृतिरिति स्वाहा कृतिः अग्निम् गृहपातिम् गृहपतिम् पृथग् गृहपातिमिति गृहपातिम् पृथग्वरोणम् वरोणम् भेषजम् भेषजम् कविम् कविम् क्षत्रम् क्षत्रमिति क्षत्रम् अतिलिच्छन्दसम् बृहते अतिच्छन्दसमित्यतिच्छन्दसम् बृहदृषभम्षभमित्यैषभम् देवो बर्हिः बर्गर्वयोतसम् वयोदसम् देवम् वयोदसमिति वयो वयासम् देवमिन्द्रम् इन्द्रावर्धयते अवर्भयदित्यावर्धयति गायत्याच्छन्द्रासा सन्द्रासेन्द्रियम् इन्द्रियम् चक्षुः चक्षुरिन्द्रे इन्द्रे वयाः पयो दधत् दधदिति दधत् सुचीमुष्णिहाष्णिहा प्राणम् प्राणमिति प्राणम् अनुष्टुभावम् अनुस्तुभेत्यनुस्तुभा बलमिति बलम् गृहत्या श्रोत्रम् श्रोत्रमिति श्रोत्रम् पङ्क्त्या शुक्रम् शुक्रमिति शुक्रम् देवो त्रिष्टुभा तृष्टुभाकृषिम् तिष्ठुभेति त्रिस्तुभा कृषिमिति कृषिम् जगत्या शोषम् शोषमिति शोषम् विराजारूपम् विराजेतिभि राजा रूपमिति रूपम् दिवदाभगम् द्विपदेति द्विपदाः बगमिति भगम् कवयसाः यश इति यशाः अतिच्छन्दसा क्षत्रम् अतिच्छन्दसेत् इति छन्दसा क्षत्रमिति क्षत्रम् इन्द्राय वयोधसे वयोधसे चारु वयोधस इति वयः दसे चारमिति चारु इन्द्राय वयोधसे वयोधसेच्छागेन पयोधस इति वयः धसेच्छागेनेति छागेन ओ